कारयन्तः कृषिम् गोभिस्तथा वैश्याः शिताभिह युञ्जते धुरिनोगाश्च कृशाङ्गाश्चाप्यजीवयन् फेनपांश्च तथा वत्सान् न दुहन्ति स्म मानवाः न कूटमानैर्वणिजः पण्यम् विक्रीणते तदा कर्माणि च न रव्याघ्रधर्मोपेतानि मानवाः धर्ममेवानुपश्यन्तश्चक्रुर्धर्मपरायणाः स्वकर्म निरताश्चासन् सर्वे वर्णा न राधिप एवम् तदा न रव्याघ्रधर्मो नः ह्रसते क्वचित् काले गावः प्रसूयन्ते नार्यश्च भरतर्षभ भवन्त्युतुषु वृक्षाणाम् पुष्पाणि च फलानि च एवम् कृतयुगे सम्यग् वर्तमाने तदा नृप आपूर्यतमही एवम् समुदिते लोके मानुषे भरतर्षभ असुरा जज्ञिरे क्षेत्रे राज्ञां तु मनुजेश्वर आदित्यैर्हि तदा दैत्या बहुशो निर्जिता युधि ऐश्वर्याद्भ्रंशिताः स्वर्गात् सम्बभूवुः क्षिताविह इह देवत्वमिच्छन्तो मानुषेषु मनस्विनः जज्ञिरे भुवि तेषु तेष्वसुरा विभो गोश्वेषु च राजेन्द्रखरोष्ट्रमहिषेषु च क्रव्यात्सु चैव भूतेषु गजेषु च मृगेषु च जातैरिह महीपालजायमानैश्च तैर्मही न शशाकात्मनात्मानमियम् धारयितुम् धरा अथ जाता बहुमदान्विताः दितेः पुत्रा दनुश्चैव तदा लोक इह वलिप्तास्ते वीर्यवन्तोऽवलिप्तास्ते नानारूपधरामहीम् इमांसागरपर्यन्ताम् परीयुररिमर्दनाः ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रांश्चैवाप्यपीडयन् अन्यानि चैव सत्त्वानि पीडयामासु रोजसा त्रासयन्तोऽभिनिघ्नन्तः सर्वभूतगणांश्च ते विचेरुः सर्वशो राजन्महीं शतसहस्रशः आश्रमस्थान्महर्षींश्च दर्शयन्तस्ततस्ततः अब्रह्मण्या वीर्यमदा मत्तामदबलेन च एवं वीर्यबलोत्सिक्तैर्भूरि यत्नैर्महासुरैः पीड्यमाना महीराजन्ब्रह्माणमुपचक्रमे